तत्त्वोपदेशः श्रीगुरुभ्यो नमः हरिः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहैः ॐ शान्तिः शान्तिः शान्तिः हरिः अडोरणीयान् महतो महीयानात्मा गुहायां निहितो स्यजन्तोः तमक्रतुं पश्यति वीतशोको धातुप्रसादान् महिमानमीशं सप्त प्राणाः प्रभुवन्ति तस्मा सप्तार्चिषस्तमिधः सप्त जिह्वाः सप्त इमे लोका ये सुचरन्ति प्राणा गुहाशयान्निहिता सप्त सप्त अत समुद्रागृह्यस्य सर्वे स्मा सत्यश्चन्दन्ते सिन्धवः सर्वरूपाः अशस्य विश्वा ओषधयो तथा आच्चयिनै स भूततिष्ठत्यन्तरात्मा ब्रह्मा आं पदवीकवीनां ऋतिर्विप्राणां महिषो मृगाणा आं सेनो गृद्धाणागं स्वधितिर्वनानागं सोम पवित्रमत्येतिरेभण्णाम् अजाबेकां लोहितशुक्लकृष्णां बह्वी प्रजां जनयन्ति गं स्वरूपाम् अजोचेको जुषुमाडोऽशेते जहा भुक्तभोगामजोऽन्य अगन्सुये चे सद्वसुरन्तरिक्ष सद्धोता वेदि तद् तिर्तिर् दुरणो दुरोणुस्रसत निषद्वरसन्द्रसदद्योम सब्जागोजातजा अधुजातं बृहत् घृतं विमिक्षिरे घृतमस्य ज्योनिर्घृते श्रुतो घृतमुस्य धाम अनुस्वधमावह माधयस्त्व स्वाहा कृतं वृषभवक्ष्य हव्यं समुद्राद्दुर्मिं मधुमागम् उदारदुपागं सुना सममृत्तत्वमानत घृतस्य नाम गुह्यं यदस्ति देवा देवानां मृतस्य नाभिः वयं नाम पब्रवाम घृतेनास्मिन् यज्ञे धारयाम अणोभिः उपब्रह्मा शृण्वस्य मानं चतुस्ृङ्गोवमिद्गौरम् चत्वारि शृङ्गात्रयो अस्य पादाद्वे शिरसे सप्त हस्तासो अस्य त्रिधा बद्धो वृषभोरोरवीति महो देवो मर्त्यागम् अविवेश त्रिधा पणिभिर्गुह्यमानं गविदेवासो धृतमण्डविन्दन् इन्द्र एकगं सूर्य एकं जजान एवेनादेकगं तधाया नृष्टस्तक्षो यो देवानाम् प्रथमं पुरस्ताद्भिस्वादियो रुद्रो महर्षिरण्यगर्भं पश्यत ध्यायपादकं सनो देववशुभयाम् स्मित्या संयुनक्तो यस्मात् परं नापरमस्ति चिके किञ्चिद्यस्मान्नाडीयो न ना ज्यायोऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठस्त्येकस्तेनेदं पूर्णं पुरुषेण सर्वं न कर्मणा न प्रजयाधनेन त्यागेनैके अमृतत्वमानसुः परेण नाकं निहितं गुहायां बिभ्राजति तद्ययो विशन्ति वेदान्तविज्ञानसु निश्चितार्था संन्यासयोगाद्यतयशुद्धसत्त्वाः ते ब्रह्मलोके तु परा अन्तकाले परामृतात् परिमुच्यन्ति सर्वे दशां विपापं परमेभूतं यत्पुण्डरीकं पुरमध्यतगस्थम् तत्रापि दशं गगनं विशोकस्तस्मिन् यदन्त्यस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतीक्षितः तस्य प्रकृतिलीनस्य यः परस्य महेश्वरः ॐ शान्ति शान्ति शान्तिः हरिः ओम्